नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अत्र व्य अस्ति अस्माकं या वर्तते तां स्वेच्छां प्रभु मेलनं कथं क्रियते यदा मेलनं भवति तदानीं जयः अपि भवति तस्मिन् प्रसङ्गे अत्र किं वक्तव्यम् इति चेत् मूकं करोति वाचालं पङ्गुं लङ्घयते केरिं यः मूकः अस्ति यः वक्तुं न शक्नोति यदि परमात्मनः कृपा वर्तते तर्हि तादृशः मूकः यः वक्तुं न शक्नोति सः अपि बहु किमपि वक्तुं शक्नोति अपि च यः पङ्गुः अस्ति यः गन्तुं न शक्नोति यः चलितुं न शक्नोति तादृशः पुरुषः अपि पर्वताः पर्वतारोहणं कर्तुं शक्नोति यदि परमात्मनः कृपा अस्ति तर्हि मूकः वक्तुम् शक्नोति पङ्गुः गिरिं गिरिलङ्घनं कर्तुं शक्नोति तर्हि यदि कोऽपि तत्र किमपि वदति कोऽपि किमपि वदति यत्किमपि किञ्चित् वदति तर्हि तत् य वदनशक्तिः अस्ति तादृशशक्तिः अपि अस्माकं नास्ति परमात्मनः एव शक्तिः यदा वयं कुत्रचित् आरोहणं कुर्मः तदानीं तत्र शक्तिः या शक्तिः शक्ति वर्तते आरोहणार्थं तादृशशक्तिः अपि अस्माकं नास्ति परमात्मनः एव परमात्मनः शक्तिः अस्ति इति कृत्वा एव वयं वक्तुं शक्नुमः कुत्रचित् गन्तुं शक्नुमः तर्हि गिरिलङ्घनं लङ्घनार्थं या शक्तिः अपेक्षिता अथवा यः मूकः अस्ति तस्य वदनार्थं या अपेक्षिता सा शक्तिः अस्माकं नास्ति परमात्मनः एव सा शक्तिः अस्ति परमात्मनः परमात्मा अस्माकं कृते तादृशशक्तिं ददाति अतः एव वयं यत्किमपि कर्तुं शक्नुमः अस्माकं यत् या शक्तिः वर्तते सा शक्तिः अस्माकं नास्ति परन्तु परमात्मनः अस्ति यदि कोऽपि तत्र मल्लयुद्धं कर्तुम् इच्छति तर्हि सः यदि वयं पश्यामः चेत् सः पुरुषः बहु बलवान् अस्ति इति वयं चिन्तयामः तस्य पार्श्वे अधिका शक्तिः वर्तते इति वयं चिन्तयितुं शक्नुमः परन्तु तादृशः पुरुषः अपि यदि कतिचनदिन कतिचनदिनपर्यन्तं खादनं न करोति पानं न करोति तर्हि तस्मिन्नपि शक्तिः न भवति तर्हि तादृश अवस्थायां सः तु मल्लयुद्धमपि कर्तुं न शक्नोति किमपि न कर्तुं शक्नोति तर्हि परमात्मा अन्नरूपेण यदा तस्य शरीरे आ, आ, परमात्मा प्रविशति प्रवेशं करोति तदानीमेव तादृशपुरुषे शक्तिः आयाति नोचेतना चेत् न इति कृत्वा मनुष्येषु एतादृशपुरुषः यः बहु बलवान् अस्ति इति वयं चिन्तयामः तादृशपुरुषे अपि शक्तिः स्वशक्तिः नास्ति परमात्मनः शक्तिः एव अस्ति अत्र यत्किमपि अस्ति वायुः वा भवतु जलं वा भवतु प्रकाशः वा भवतु अन्नं वा भवतु यत्किमपि वा भवतु तत्तु अस्माकं शक्त्या एतत् सर्वं नास्ति अस्माकं शक्त्या एतत् सर्वं नास्ति एतत् सर्वं परमात्मनः शक्त्या एव अस्ति यदि कश्चन पुरुषः एवं चिन्तयति यद् एतत् सर्वं यदस्ति मम शक्त्या एव अस्ति मया एव एतत् सर्वं कृतम् इति तादृशः पुरुषः चिन्तयति चेत् तादृशः पुरुषः मूढः अस्ति मूर्खः अस्ति यदि सः चिन्तयति अहं करोमि अहं करोमि मया कृतम् इति चिन्तयति जिन्त चेत् तर्हि सः पुरुषः मूढः अस्ति किमर्थं मूढः अस्ति इति चेत् यदि कश्चन पुरुषः बुद्धिमान् अस्ति सः कथं करोति इति चेत् सः चिन्तयति यत्किमपि जायते तत्तु परमात्मनः कृपया जायते परमात्मनः शक्त्या जायते इति सः बुद्धिमान् पुरुषः चिन्तयति तर्हि एवं चिन्तयति चेत् तदानीं किं भवति इति चेत् तादृशपुरुषे परमात्मनः अनन्तशक्तिः अपि आयाति परमात्मनः अनन्तशक्तिः अपि आयाति अतः एव वयं पश्यामः यः साधकः अस्ति यः तीव्ररीत्या परमात्मनः आराधनां करोति तादृशपुरुषः प्रातःकालात् आरभ्य रात्रिपर्यन्तं बहु किमपि करोति वयं पश्यामः चेत् कथम् अयं पुरुषः एवं बहुकार्याणि सह पुरुषः कथं बहुकार्याणि करोति इति वयं चिन्तयामः चेत् वस्तुतः सः तु स्वशक्त्या करोति यतोहि मनुष्ये तु शक्तिः सीमिता शक्तिः वर्तते परन्तु तादृशपुरुषः कथं कार्यं करोति इति चेत् सः तु यत्किमपि करोति सः चिन्तयति मया किमपि न कृतं परमात्मनः शक्त्या एतत् सर्वं जायमानम् अस्ति इति सः चिन्तयति एवं चिन्तयति चेत् तत्र परमात्मनः अनन्तशक्तिः तस्मिन् पुरुषे आयाति अतः तादृशपुरुषः सर्वं कर्तुं शक्नोति अतः तादृशपुरुषः एव बुद्धिमान् अस्ति यदि क कश्चन पुरुषः चिन्तयति मया कृतं मया कृतं मम शक्त्या मया इति चिन्तयति चेत् सः पुरुषः मूढः अस्ति यतोहि तस्य शक्तिः सीमिता अस्ति सः सर्वं कर्तुं न शक्नोति परन्तु यः बुद्धिमान् अस्ति सः चिन्तयति यत्किमपि जायमानमस्ति तत्तु परमात्मनः शक्त्या जायमानमस्ति अतः मम मयि तादृशक्ति मयी ताद नया किमें न क्रीय सर्व परमा क्रियते यदि सह चिंत पर अनत सागर तस्षे आया सहुष्व बुद्धिम पुर वर्तवते य जगति वह जगति यदा अस्माक जन्म जाये थ तदानीं वयं किमपि सर्वदा कुर्मः खलु कार्याणि तु कुर्मः प्रातःकालात् आरभ्य रात्रिपर्यन्तं किमपि किमपि कुर्मः कुत्रचित् वयं पश्यामः भोजनं कुर्मः कुत्रचित् गच्छामः अन्यत् किमपि कार्यं हस्तेन पादेन किमपि कार्यं कुर्मः तर्हि एतस्य सर्वस्य पृष्ठतः किम् इति चेत् कीदृशवृत्तिः अस्ति एतत् सर्वस्य पृष्ठतः यत्र वयं कार्याणि कुर्मः इति चेत् अस्मासु एषणा वर्तते एषणा वृत्तेः पूर्वम् एषणा वर्तते तर्हि एषणा वृत्तिः एव तत्र इच्छा इति वयं वदामः तर्हि इच्छा इच्छा यदा भवति तदानीम् इच्छायाः अनुसारेण कश्चन पुरुषः चेष्टां करोति सा चेष्टा एव वयं वदामः एषणा एषा वयं वदामः तर्हि इच्छा यदा अस्ति तदानीमेव प्रयासः भवति इदानीं मया चिन्त्यते अहं कल्कतानगरात् दिल्लीनगरपर्यन्तं गच्छामि इति चिन्तयामि चेत् तत्र इच्छा जागरिता अस्ति तदानीम् अहं इच्छायाः पूर्त्यर्थम् अहं प्रयासं करोमि तत्र रेल्यानं रेल्याने उपविश्य अहं कल्कतानगरात् दिल्लीनगरपर्यन्तं गच्छामि चेत् मम एषणायाः पूर्तिः जाता ती इति कृत्वा तत्र यत्किमपि कार्यं वयं कुर्मः तस्य पृष्ठतः एषणा वर्तते तर्हि तादृश इच्छा इच्छायाः नामकरणमस्ति एषणा तर्हि कस्यचित् हितं करोमि इति एषणा अस्ति चेत् सा एषणा हितैषणा तर्हि एषणायाः आधारेण एव जगति सर्वं जायते अत्र परमात्मा परमात्मा यः अस्ति यः विर विराट् पुरुषः अस्ति तर्हि परमात्मनः अपि एषणा वर्तते परमात्मनः अपि एषणा वर्तते तर्हि परमात्मनः परमात्मनि एषणा अस्ति इति कृत्वा जगतः उत्पत्तिः जाता अस्ति तर्या मनुष्ये जगति जगति मनुष्याः सन्ति मनुष्येषु अपि एषणा अस्ति सः पुरुषः चिन्तयति अहं करोमि अहं करोमि तर्हि परमात्मनि अपि एषणा अस्ति यदि परमात्मनि या एषणा अपि च मनुष्ये या वैष्टिक एषणा द्वयम् अपि एकत्र कार्यं करोति चेत् तदानीं मनुष्यस्य तादृशकर्मणि सिद्धिः प्राप्ता भवति सिद्धिः प्राप्ता भवति इत्युक्ते साफल्यं भवति तत् कार्यं सिद्धं भवति तर्हि पुरुषः चिन्तयति मनुष्यः चिन्तयति ओ मया साफल्यं प्राप्तं कर्मसिद्धिः जाता इति इति चिन्तयति वस्तुतः कर्मसिद्धिः इति किमपि नास्ति यदि क पुरुषः मनुष्यः किमपि करोति तत्र तस्मिन् कार्ये साफल्यं प्राप्नोति चेत् सः चिन्तयति कर्मसिद्धिः जाता इति चिन्तयति वस्तुतः किम् अस्ति अत्र इति चेत् कर्मसिद्धिः नास्ति अत्र कर्मसिद्धिः नास्ति परमात्मनः एषणायाः पूर्तिः जाता तावदेव यथा परमात्मा चिन्तयति तथैव सर्वं जायते यदि अस्माकम् इच्छा अपि च परमात्मनः इच्छा द्वयोः साम्यं साम्यता वर्तते तदानीं मनुष्यः चिन्तयति ओ मया साफल्यं प्राप्तम् इति वस्तुतः अस्माकं तु साफल्यं किमपि नास्ति तत्र परमात्मा इच्छति परमात्मा एषणा तत्र अस्ति इति कृत्वा मम इच्छायाः पूर्तिः जाता तावदेव केवलं मया एव किमपि इष्यते परमात्मनि तादृश इच्छा नास्ति चेत् अस्माकम् इच्छायाः पूर्तिः कदापि न भवति तस्य इच्छा परमात्मनः इच्छा वर्तते चेदेव तद् कस्यचित् विषयस्य पूर्तिः भवति सर्वं जगति परमात्मनः इच्छायाः अनुसारम् एव कार्यं करोति तदानीं तत्र यदा कार्यस्य सिद्धिः भवति इति मनुष्यः चिन्तयति तदानीं मनुष्यः मनुष्यस्य मनसि आनन्दः भवति मनुष्यः चिन्तयति मम इच्छायाः पूर्तिः जाता इति चिन्तयति तर्हि वस्तुतः किं चिन् इति चेत् अत्र जगति यद् तृणम् अस्ति तृणस्य वहनमपि परमात्मा इच्छति चेदेव भवति नो न भवति अस्माकम् इच्छया किमपि न जायते यदा अस्माकम् इच्छा अपि च परमात्मनः इच्छा द्वयोः साम्यं भवति अथवा द्वयोः ऐक्यं भवति तदानीं वयम् अस्माकं साफल्यं भवति कार्ये तदानीं वयं चिन्तयामः मम कार्यसिद्धिः कर्मसिद्धिः जाता इति वयं चिन्तयामः तर्हि अत्र किम् अवगन्तव्यम् इति चेत् यथा अस्माकम् वर्तते तथा विराट् पुरुषस्य अपि एषणा वर्तते यदा द्वयोः एषणयोः ऐक्यं वर्तते तदानीमेव कार्यस्य साफल्यं भवति यदा परमात्मनः एषणा भिन्ना अस्माकम् एषणा भिन्ना तर्हि अस्माकं कार्यसिद्धिः न भवति इति अवगन्तव्यं तर्हि परमात्मनः एकः विशेषः विशेषनामकरणं वर्तते परमात्मनः परमात्मनः नाम वर्तते कल्याणसुन्दरम् इति तत् किमर्थं वदामः परमात्मा कल्याणसुन्दरम् इति तर्हि यः बुद्धिमान् पुरुषः अस्ति यः बुद्धिमान् मनुष्यः अस्ति सः कथं चिन्तयति इति चेत् यत्किमपि कार्यं करोति तत्र चिन्तयति परमात्मनः इच्छा अत्र का इच्छा वर्तते तदनुगुणमेव अहं कार्यं करोमि तर्हि प्रत्येकं कर्मणः कर्मण कर्मणः पूर्वं सः मनुष्यः चिन्तयति परमात्मनः इच्छा अत्र का अस्ति इति चिन्तयति तदनुगुणं सः कार्यं करोति तर्हि तत्र कार्यस्य सिद्धिः अवश्यं भवति यतोहि परमात्मनः इच्छायाः पूर्तिः जाता तर्हि तेन इच्छा परमात्मनः इच्छायाः पूर्तिः यदा जायते यतोहि बुद्धिमान् मनुष्यस्यापि इच्छा सा एव अस्ति परमात्मनः या इच्छा सा एव इच्छा मम अपि इति सः चिन्तयति इति कृत्वा तादृशपुरुषः सुखं प्राप्नोति अत्र सम्यक्तया अवगन्तव्यं तादृशबुद्धिमान् पुरुषस्य एषणा नास्ति एव वैष्टिक एषणा एषणा कापि नास्ति सः पश्यति परमात्मनः एषणा का अस्ति सा एषणा एव मम एषणा अपि तर्हि प्रत्येकं कार्यं यदा वयं कुर्मः तदानीं कथं ज्ञातुं शक्नुमः परमात्मनः एषणा का अस्ति इति अहं अहं कथं जानामि जानामि परमात्मनः एषणा का अस्ति अस्याम् अस्यां स्थितौ इति चेत् अत्र सर्वदा सर्वदा परमात्मनः इच्छा का इति चेत् जगतः कल्याणं जगतः कल्याणम् एव परमात्मनः एषणा यदा वयं किमपि कार्यं कुर्मः तदानीं जगतः एषणा इति विषयं मनसि निधाय कार्यं कुर्मः तदानीम् अस्माकम् इच्छा अपि च परमात्मनः इच्छा द्वयोः ऐक्यं भवति इति इति कृत्वा एव परमात्मनः एषणा सर्वदा जगतः हितं जगतः कल्याणम् इति कृत्वा शास्त्रेषु परमात्मनः अन्यत् नाम वर्तते कल्याणसुन्दरं तर्हि कल्याणमिति किमर्थमिति जानीमः यतोहि सः पुरुषः सः परमात्मा सर्वस्य कल्याणम् इच्छति इति कृत्वा सः कल्याणः तर्हि सुन्दरः किमर्थम् इति परमात्मा सुन्दरः किमर्तम परमात्मा कल्याणमूर्तिः वर्तते तर्हि परमात्मा सः कल्याणः तस्य नामकरणं कल्याणः इति वयं जानीमः यतोहि वा सः सर्वस्य कल्याणं सर्वस्य हितम् इच्छति यतोहि तस्मिन् हितैषणा अस्ति हितैषणा अस्ति परमात्मनि परमात्मा सुन्दरः किमर्थम् इति पश्यामः चेत् यदि अस्माकं बान्धवः अस्ति अथवा अस्माकं मित्रमस्ति तादृश अस्माकं पितरः सन्ति ते कथं व्यवहरन्ति इति चेत् ते सर्वदा अस्माकं हितस्य विषये चिन्तयति अस्माकं हितम् अस्माकं हितं तेषां कृते बहु मुख्यविषयः अस्ति तर्हि इति कृत्वा वयं तान् ता तान् जनान् वयं कथं वयं पश्यामः बन्धुजनान् वा भवतु पितरः वा पितरः वा भवन्तु वयं कथं पश्यामः इति चेत् वयं पश्यामः सः पुरुषः सुन्दरः अस्ति यतोहि सः पुरुषः मम हितम् इच्छति इति कृत्वा अस्माकं दृष्ट्या सः सुन्दरः इति वयं वदामः लोके यदि कोऽपि पुरुषः अस्माकं हानिं करोति अस्मा अस्मासु दुःखं ददाति तर्हि अस्मभ्यं दुःखं ददाति तदानीं वयं किं वदामः स तादृशमनुष्यः सुन्दरः इति वयं वदामः यः अस्माकं हितस्य विषये चिन्तयति तादृशमनुष्यः एव सुन्दरः इति वयं व्यवहारं कुर्मः सः मनुष्यः इति इस् अ गुड् मेन् इति वयं वदामः परन्तु इत्र इदानीं परमात्मा प्रत्येकं जीवस्य विषये हितमेव चिन्तयति प्रत्येकं जीवस्य हितमेव करोति चिन्तयति करोति अपि इति कृत्वा अस्माकं सर्वेषां दृष्ट्या परमात्मा सुन्दरः अस्ति सुन्दरः अस्ति हि इस् अ गुड् इस् अ गुड् एण्टिटि इति वक्तुं शक्नुमः इति कृत्वा सः परमात्मा कल्याणसुन्दरः इति वयं वदामः तर्हि परमात्मा कल्याणकारी अस्ति इति कृत्वा सह सुन्दरः अपि अस्ति यदि अस्माकम् इच्छा अस्माकम् एषणा अपि कल्याणकारी अस्ति इत्युक्ते सर्वेषां हितम् आधारीकृत्य अस्माकम् एषणा वर्तते चेत् तदानीं कल्याणसुन्दरस्य या एषा सा एशना एव अस्माकमपि एषणा भवति तर्हि अस्माकम् एषणायाः पूर्तिः अवश्यमेव भवति यतोहि सा एषणा परमात्मनः एषणा अस्ति परमात्मनः एषणा एव अस्माकमेषणा परमात्मनः परमात्मनः एषणा का परमात्मनः एषणा सर्वेषां कल्याणं सर्वेषां हितं यदि तादृश एषणा एव अस्माकमपि वर्तते तदानीम् अस्माकम् एषणा अपि च परमात्मनः एषणा द्वयोः ऐक्यम् अस्ति खलु तर्हि तादृशसन्दर्भे अस्माकं जयः अवश्यम् एव भवति अवश्यमेव भवति इत्युक्ते यथा मया पूर्वम् उक्तं यदि वयं कल्कटानगरात् दिल्लीनगरपर्यन्तं गन्तुम् इच्छामः तर्हि अस्माकम् इच्छा अस्ति कल्कटानगरात् दिल्लीनगरपर्यन्तं गन्तव्यम् इति अस्माकम् इच्छा अस्ति तदानीं तत्र यदा यदा अस्माकम् इच्छा भवति तदानीं कदाचित् तत्र विपत्तयः भवन्ति बादाः भवन्ति कदाचित् गन्तुं न शक्नुमः कदाचित् अन्ये अन्यक्लेशाः भवितुम् अर्हन्ति कदाचित् गन्तुं न शक्नुमः यतोहि अस्माकं कदाचित् अस्माकं शरीरे शक्तिः नास्ति तत्र पादे शक्तिः नास्ति इति कृत्वा गन्तुं न परन्तु कश्चन पुरुषः यः कश्चन मनुष्यः यः बुद्धिमान् अस्ति सः किं करोति इति चेत् सः किं करोति सः तत्र दिल्ली दिल्लीपर्यन्तं गन्तुं यद् तत्र रेल्यानं तत्र गत्वा रेल्याने सः उपविशति यदि रेल्याने उपविशति तर्हि सः तु अवश्यमेव दिल्लीनगरं पर्यन्तं गच्छति तर्हि तत्र यदा गच्छति तदानीं तस्य बन्धुजनाः वदन्ति ओ अयं अयं मनुष्यः रामः कल्कतानगरात् दिल्लीनगरपर्यन्तम् आगतवान् इति सः तत्र बान्धुजनाः वदन्ति परन्तु अत्र पश्यामः चेत् सः पुरुषः एव गच्छति वा तत्र दिल्ली कल्कतानगरात् दिल्लीनगरपर्यन्तं सः एव स्वयं गच्छति वा सः न तु गच्छति सः पुरुषः तु रेल्याने उपविशति तर्हि रेल्याने रेल्याने या शक्तिः अस्ति तया शक्त्या तस्मिन्नपि तत्र गतिः जायते येन सः पुरुषः अपि दिल्ली दिल्लीनगरपर्यन्तं पर्यन्तम् आगच्छति तर्हि वस्तुतः सः स्वशक्तिया स्वशक्त्या गच्छति वा सः तत् किं कृतं केवलं तत्र दिल्लीनगरपर्यन्तं यद् रेल्यानं गच्छति तत्र रेल्याने आगत्य सः उपविशति तावदेव सः करोति अग्रे तत्र रेल्यानस्य यः तरङ्गः अस्ति सः तरङ्गः सः तरङ्गः तस्मिन् पुरुषे अपि ता, तादृशतरङ्गस्य तस्मिन् पुरुषे अपि मेलनं भवति येन कारणेन सः पुरुषः दिल्लीनगरपर्यन्तं गच्छति यथा अत्र अस्मिन् उपमा अत्र अत्र या उपमा मया दत्ता तथा एव वयं पश्यामः चेत् तर्हि परमात्मा कल्याणसुन्दरस्य या एषणा अस्ति तादृश एषणायाः यः तरङ्गः अस्ति तस्मिन् तरङ्गे अस्माकं तरङ्गः अपि मिलति चेत् अस्माकं जयः भवति यथा वयं तत्र रेल्याने उपविशामः रेल्यानस्य शक्त्या वयं रेल्यानं तु दिल्लीनगरं गच्छति इति वयं जानीमः तत्र उपविशामः तर्हि तया शक्त्या रेल्यानस्य शक् शक्त्या वयं दिल्लीनगरं नगरं प्राप्नुमः एवं परमात्मनः या एषणा अस्ति सा एषणा एव अस्माकम् अपि अस्ति चेत् तर्हि तत्र एषणायाः पूर्तिः एषायाः जयः तु अवश्यम् एव भवति तर्हि अत्र शिक्षका इति चेत् ती य युद्धिम साधक यहाँ करो थी, तथा अस्मा अस्म अ वयमी बुद्धिमता भवाम या भावना अस्ति सा भावना अस्वना परमात्म ताद भावनाया मेलनम अस्माकम भावनाया मेलनं यदा क्रियते तदानीम् अस्माकं जयः अवश्यम् एव भवति इत्युक्ते अन्ततो गत्वा अस्माकं वयस्तिक इच्छा वैष्टिक इच्छा न भवेत् परमात्मनः या एषणा सा एषणा अस्माकम् अपि यदा भवति तदानीं जयः भवति यदा मनुष्यः चिन्तयति ओ मम शक्त्या अहं किमपि करोमि इति चे चिन्तयति चेत् तर्हि स्वस्य वैष्टिक एषणा अस्ति तस्मिन् सन्दर्भे तस्य जयः भवति वा न वा इति न जानीमः यतोहि परमात्मनः एषणा भिन्ना जयः न भवति परन्तु परमात्मनः तस्मिन् सन्दर्भे यदि तस्य तस्य मनुष्यस्य एषणा अस्ति परन्तु तस्मिन् तस् तस्याम् तत्र कस्यचित् हितं भवति तर्हि तस्य एषायाः पूर्तिः भवितुम् अर्हति यतोहि परमात्मनः एषणा अपि तथैव आसीत् चेत् तदानीं पूर्तिः भवति परन्तु यदा मनुष्यः सर्वदा परमात्मनः या एषणा हितेषणा वर्तते तादृश एषणा एव अस्माकमपि अस्ति चेत् तदानीं सर्वदा अस्माकं जयः अवश्यम् एव भवति इति अत्र विषयः अस्ति कथम् अस्माकं स्वेच्छा परमात्मनः इच्छायां मेलनं कथं क्रियते यदि क्रियते तदानीम् अस्माकं जयः अवश्यं भवति आनन्दः अपि लभ्यते इति कृत्वा परमात्मा कल्याणसुन्दरः इति वयं वदामः अस्तु अत्र कोपि प्रश्नः संशयः किमपि तर्हि वयम् अग्रे गच्छामः मम एकक्षणं तत्र पुनः आगन्तव्यम् आन्स्क्रीन् दृश्यते वा न भगिनि Okay. इदानीं दृश्यते वा ओके इदानीं दृश्यते चिन्तयामि ओके आरब्धुं शक्नुमः तस्मिन् जगति मनुष्याः कथं जीवेयुः इति विषयः अस्ति अत्र ओके आप सुचित्रभग्नि आरब्धुमिच्छति वा नमस्कारः भगिनी नमस्कारः श्रूयते वा आमां श्रूयते मनुष्याणां पूर्णतया प्रतिबिम्बितं चैतन्यं वर्तते इति कारणेन एव मनुष्याः स्वतन्त्रक्रियां शुभाशुभयोः भेदं च अपि कर्तुं समर्थाः भवन्ति शुभम् अशुभं च सापेक्षिकः विचारः अस्ति किं शुभं किं च अशुभम् इति अस्माभिः निर्धारितव्यम् अत्र दत्तमस्ति यद् मनुष्यस्य चैतन्यं वर्तते तत्तु अन्यकोपि जीवस्य तादृशं चैतन्यं प्रतिबिम्बितं चैतन्यं न वर्तते तत्र अस्माकं यद् मनः तत्तु पूर्णतया विकसितः अस्ति अतः मनुष्यस्य इति कारणेन मनुष्यः स्वतन्त्रक्रियां शुभाशुयो भेदं पूर्णरीत्या विकसितमनसि यद् विकसितमनसः यद् अस्ति वर्तते मनुष्या मनस्येषु अतः ते अपि यत् कार्यं करणीयं वा यद्वा न करणीयं शुभं वा अशुभं वा तत्र भेदमपि ज्ञातुं समर्थाः एव मनस्याः यद्भेदं वर्तते शुभं वा अशुभं च सापेक्षिकः विचारः सापेक्षिकः विचारः इत्युक्ते सम्पूर्णतया न जानामि अतः निर्धार तद् निर्णयं करणीयं किं शुभं किम् अशुभम् निर्णयं करणीयम् साभिक्षिकः विचारः इत्युक्ते आम् किम् उचितम् किञ्चित् अग्रे गच्छतु भगिनि अनन्तरम् अहं वक्ष्यामि एतदपि अग्रिमपरिचील करोतु अस्तु सगुण सगुणब्रह्मवत् प्रत्येकं जीवात्मा मुक्तः स्यात् इति उद्देश्येन सगुणब्रह्मणा सृष्टिः आनीता एतेन एव अभिप्रायेण स्थूलात् सूक्ष्मपर्यन्तं विकासस्य गतेः अन्तिमावस्थायां कतिपयानाम् एकाङ्कनां प्रतिनिधित्वं कुर्वन्तः मानवाः पूर्णतया प्रतिबिम्बितेन जीवात्मेन जीवात्मना सह प्रकटीभवन्ति सूक्ष्मं प्रति प्रगतिः यदा भवति तदा जीवात्मनि प्रकृतेः प्रभावः न्यूनः भवति यतोहि वयं पश्यामः यत् पशूनाम् अपेक्षया मनुष्याणां जीवात्मनि प्रकृतेः प्रभावः न्यूनः भवति सगुणब्रह्मणः दयायाः कारणेन एव जीवात्मनि प्रकृतेः प्रभावः न्यूनः अस्ति इति प्रकृतिः सगुणब्रह्म च सृष्टेः आरम्भे एव सन्धिं कृतवन्तौ स्या स्यातां यतो हि तदा एव एतत् सम्भवति अन्यथा प्रकृतिः यस्याः स्वभावः एव यथासक्तिपुरुषस्य गुणान् वयं करणीयं पुरुषं स्वप्रभावात् न मुञ्चति स्म यद्यपि सृष्ट सृष्ट्यवस्थायां यत्र स्थूलात् सूक्ष्मं प्रति गतिः भवति तत्र प्रकृतिः स्वच्छाय स्वबन्धनात् चैतन्यं पुरुषं मुञ्चति इति दृश्यते तथापि जीवात्मा बन्धने तिष्ठति यतः सृष्टेः स्थूलात् सूक्ष्मं प्रति गतिः न समाप्ता भवति यदि अस्यां वशीकृतायाम् अवस्थायां काचित् चेतनसत्ता स्वतन्त्रतया कार्यं करोति तर्हि प्रकृत्याः स्वभावः तस्य दण्डनमेव अस्य दण्डस्य फलस्वरूपत्वेन जीवात्मनः अग्रे प्रति अग्रे अस्थाई अस्थायिरूपेण प्रभाविता भवति तत्र अत्र गतमस्ति यद् सगुणब्रह्मणः एकं सृष्टिं क्रियमाणाः सन्ति तत्र कापि उद्देश्यः अपि अस्ति यद् सर्वे जीवाः मुक्तः स्यात् इति तादृशः अभिप्रायेणैव इदानीं प्रतिसञ्चार अवस्थायां स्थूलात् सूक्ष्मपर्यन्तं गतिः भवति सर्वेषाम् एतेन एतं एतदवस्थायां यद् मनुष्यस्य पूर्णतया प्रतिबिम्बिता चैतन्यं वर्तते अतः तेषां प्रगतिः अपि Hmm. तेषाम् अग्रगतिः भवति तत्र वयं पश्यामः चेत् प्रकृत प्रकृतेः प्रभावः तत्र न्यूनमस्ति पशूनामपेक्षया मनुष्याणां यद् गतिः भवति तत्र प्रकृतेः प्रभावः न्यूनः भवति अतः एव ते एतादृशः अनादि अनन्तस्य चिन्तनं कर्तुं शक्यते एतत् कथं भवति इति पश्यामः चेत् एतत्तु शगुणब्रह्मणः कृपया एव भवति अतः तत्र प्रकृतेः प्रभावः न्यूनः इति जातं तत्र शगुणब्रह्मणः कृपा एव प्रकृतिः शगुणब्रह्म यदि वयं चिन्तयामः प्रकृतिः शगुणब्रह्मणाः किमपि तेषां ते अङ्गीकृतवन्तः कीदृशव्यवस्था स्यात् इति तादृशम् अपि वयम् अनुमयितुं शक्नुमः अन्यथा प्रकृतेः तु प्रकृतिः तु सर्वदा पुरुषं गुणान्वितः एव करोति स कथं तु तत्र प्रकृतेः प्रभावः न्यूनं भवति इति चिन्तया अग्रे पश्यामः चेत् स्थूलात्सूक्ष्मं यदि प्रकृतिः स्वकार्यं सम्यग्रीत्या करोति तत्र स्थूलात्सूक्ष्मं प्रति अपि कदापि न सम्भवति यतोहि प्रकृतेः प्रभावः सर्वदा भवति एव यदा वयं पश्यामः प्रकृतेः बन्धने भूत्वा यदि कोऽपि स्वतन्त्ररीत्या कार्यं कर्तुं शक्यते इच्छति चेत् तत्र दण्डनमपि भवति एण्ड् तद् तस्मात् कारणात् एव जीवात्मनः सूक्ष्मतां प्रति गतिः यद् प्रतिसञ्चार अग्रे गतिः तत्र किञ्चित् प्रभाविता भवति परन्तु तद् स्थायिरूपेण न अस्थायिरूपेण एव तत्र तस्मिन् गतौ किञ्चित् विघ्न वा भवितुमर्हति सम्यक्रीत्या न जानामि तथा सम्यक् हा हा समीचीनं भगिनि समीचीनं किञ्चित् तत्र अहं वदामि इत्युक्ते अत्र प्रथमतया मनुष्येषु चैतन्यं सम्पूर्णतया प्रतिबिम्बितमस्ति इति वयं जानीमः मनुष्यस्य मनः सम्यक्तया वर्धितं वर्तते इति कृत्वा चैतन्यस्य प्रतिबिम्बः सम्यक्तया मनुष्यस्य मनुष्ये भवति इति वयम् आरम्भतः वयं पश्यन्तः स्मः तर्हि चैतन्यस्य प्रतिबिम्बः स्पष्टतया भवति मनुष्येषु इति कृत्वा मनुष्यः स्वतन्त्रतया कार्यं कर्तुं अर्हति स्वतन्त्रतया कार्यं कर्तुम् अर्हति ज्ञातुं शक्नोति किम् उचितं किम् अनुचितं किम् उचितकर्म किम् अनुचितकर्म इति ज्ञातुं शक्नोति तर्हि इदानीं तत्र सगुणब्रह्मणा सृष्टिः कृता किमर्थं सृष्टिः कृता इति चेत् प्रत्येकं जीवात्मनः मुक्तिः अथवा मोक्षः भवतु प्रत्येक प्रत्येकं जीवात्मनः मोक्षः भवतु मुक्तिः मोक्षः भवतु इति एव तस्य लक्ष्यमस्ति ब्रह्मणः लक्ष्यं प्रत्येकं जीवात्मनः मोक्षः भवतु तदर्थं तत्र सृष्टिः निर्मिता सृष्टिचक्रे तु तत्र सृष्टिचक्रम् एकं एक घटिरूपेण एकं घटिरूप घटिरूपेण वयं पश्यामः चेत् तत्र द्वादशवादनात् षड्वादनपर्यन्तं सञ्चर्धारा यत्र पुरुषः पुरुषस्य स्थूलीकरणं भवति सूक्ष्मात् स्थूलपर्यन्तं गमनम् अस्ति द्वादशवादनात् षड्वादनपर्यन्तम् अनन्तरं षड्वादनात् द्वादशवादनपर्यन्तं स्थूलात् सूक्ष्मपर्यन्तपर्यन्तं गमनमस्ति तत्र क्रमेण जीवानाम् आविर्भावः भवति क्रमेण तेषां विकासः अपि भवति तत्र प्रतिसञ्चर्धारायां प्रकृतिः नित्यनिवृत्ता नित्यनिवृत्ता इत्युक्ते तस्य प्रभावः क्षणैः क्षणैः तत्र निवृत्ता प्रभावः प्रभावस्य निवृत्तिः भवति तर्हि मनुष्यः सर्वेषाम् अपेक्षया बहु विकसितः वर्तते तर्हि मनुष्यः अपि प्रकृतेः प्रभावे अस्ति परन्तु अन्येषु जीवेषु प्रकृतेः यादृशप्रभावः तादृशप्रभावः नास्ति तत्र प्रभावस्य न्यूनीकरणं जातं प्रतिसञ्चरधारायां तर्हि तत् कथं अर्हति प्रकृतेः स्वभावः तु पुरुषस्य गुणान्वयः एव पुरुषस्य गुणान्वयकरणम् एव प्रकृतेः स्वभावः तर्हि प्रतिसञ्चरधारायां कथं प्रकृतिः नित्यनिवृत्ता इति चेत् तत्र सृष्ट सृष्टेः आरम्भे एव प्रकृतिः अपि च पुरुषः अनयोः मध्ये किमपि तत्र अङ्गीकारः भवेत। यत् इत्युक्ते सम्कैण्ड् आफ़् अण्डर्स्टेण्डिङ्ग् बिट्वीन् प्रकृतिः एण्ड् पुरुषा यत् प्रकृतेः प्रभावः प्रतिसञ्चरधारायां न्यूनः भवति तत्र क्रमेण तस्याः प्रभावः न्यूनः भवति न्यूनीकरणं भवति प्रभावस्य न्यूनीकरणं भवति इति तादृश अग्रिमेण्ट् भवेत् इति कृत्वा प्रकृतिः क्रमेण तत्र क्रमेण तस्याः प्रभावं प्रभावं मुञ्चति तर्हि यद्यपि प्रभावं मुञ्चति तदापि तत्र मनुष्ये प्रकृतेः प्रभावः तादृशप्रभावः नास्ति चेदपि सः परन्तु सः पुरुषः इदानीमपि बन्धने अस्ति सम्पूर्णतया मुक्तः इति नास्ति तर्हि पुरुष तर्हि मनुष्यः मनुष्यः इदानीमपि प्रकृतेः बन्धने अस्ति सम्पूर्णतया मुक्तः इति नास्ति अन्यजीवानाम् अपेक्षया सः मुक्तः परन्तु सम्पूर्णतया मुक्तः नास्ति यदि सः मनुष्यः प्रकृतेः नियमानुगुणं न कार्यं करोति नियमानुगुणं कार्यम् अकृत्वा सः स्वच्छ कार्यं करोति तर्हि प्रकृतिः किं करोति इति चेत् प्रकृतिः दण्डनं ददाति तादृशमनुष्ये प्रकृतिः दण्डनं ददाति यदा प्रकृतेः दण्डनं भवति तदानीं पुरुष मनुष्यस्य अग्रगतिः न तस्य अग्रगतिः सूक्ष्मं प्रति अग्रगतिः स्थगिता स्थगिता भवति तर्हि किञ्चित् कालपर्यन्तं तस्य अधोगतिः भवति तर्हि पुनः प्रयत्नेन सङ्घर्षेण पुनः अग्रगतिः भवति तर्हि यदा मनुष्यजीवनं पुनः लभ्यते तदानीं पुनः सः प्रयत्नं कर्तुं शक्नोति तर्हि सृष्टिचक्रं कथं भवति इति वयं जानीमः तत्र षड्वादनात् द्वादशवादनपर्यन्तं प्रतिसञ्चरधारा वर्तते प्रतिसञ्चरधारायां तत्र सङ्घर्षेण एव अग्रगतिः भवति क्रमेण विकासः भवति क्रमेण अत्र मानसिकविकासः भवति क्रमेण जीवानां मानसिकविकासः भवति तेन सह तत्र शरीरस्य विकासः अपि शरीरे यत्र मनः निवसति तादृशशरीरस्य अपि विकासः भवति तर्हि दशवादने यदा मनुष्यस्य आविर्भावः भवति तादृशमनुष्ये मनः सम्पूर्णतया वर्धितं भवति इति एतादृशशिष्टिचक्रस्य मानचित्रं मनसि भवेत् तर्हि मनुष्येषु इदानीं तत्र स्वतन्त्र इच्छा वर्तते मनुष्यधर्मस्य पालनं कर्तुं शक्नोति अथवा पशुजीवनस्य पालनमपि कर्तुं शक्नोति परन्तु अन्यजीवानां विषये तथा विकल्पः नास्ति तत्र यः पाषाणखण्डः अस्ति सः पाषाणखण्डवत् यः पिपीलिका या पिपीलिका अस्ति पिपीलिका पिपीलिकावत् व्यवहरति एवमेव अन्ये जीवाः अपि यथा तेषां प्रकृतिः यथा प्रकृत्या निर्णीतं तथैव ते जीवाः व्यवहरन्ति इत्युक्ते तत्र सहजातवृत्तिः सहजातवृत्तिः या अस्ति तस्याः अनुगुणं ते जीवाः व्यवहरन्ति मनुष्येषु गुणद्वयं वर्तते अस्मासु चैतन्यं सम्पूर्णतया प्रतिबिम्बितम् इति कृत्वा अस्मासु अनन्तेषणा वर्तते अस्मासु पशुधर्मः अपि वर्तते अस्मासु स्वतन्त्र इच्छा अपि वर्तते अतः विकल्पद्वयमस्ति अस्माकं पुरतः यदि मानवधर्मस्य पालनं कर्तुम् इच्छामः चेत् तर्हि अग्रगतिः भवति यदि मानवधर्मस्य पालनं कर्तुं न इच्छामः तर्हि तत्र अधोगतिः भवति तर्हि अस्माकं कृते तत्र विकल्पः वर्तते स्वतन्त्रतया कार्यं कर्तुं विकल्पः अस्ति तादृशविकल्पः विलक्षणविकल्पः अस्ति तादृशविकल्पः अन्येषां जीवानां नास्ति अन्येषां जीवानां विषये तु तादृशविकल्पः नास्ति यथा प्रकृत्या तेषां व्यवहारः भवेत् इति निर्णीतं प्रकृत्या तथैव तेषां व्यवहारः भवति तर्हि अत्र अस्मिन् करपत्रे मनुष्याः अस्मिन् लोके कथं जीवेयुः इति विषयः अस्ति पशवः कथं जीवेयुः इत्यत्र तेषां विकल्पः नास्ति यथा प्रकृत्या निर्मितं तथैव वासं कुर्वन्ति तेषां कृते विकल्पः नास्ति परन्तु मनुष्याणां तथे तथा नास्ति मनुष्याणां विकल्पः अस्ति दशवादने आविर्भावः भवति तदानीं तेषां विकल्पः अस्ति ते अग्रे शक्नुवन्ति अथवा अधोगतिं प्रति अपि गन्तुं शक्नुवन्ति तर्हि प्रकृतिः नित्यनिवृत्ता नित्यनिवृत्ता इत्युक्ते तत्र षड्वादनात् द्वादशवादनपर्यन्तं प्रकृतेः प्रभावः तत्र क्रमेण न्यूनः भवति यदा आदौ षड्वादने ये जीवाः आविर्भूताः तेषामपेक्षया मनुष्येषु प्रकृतेः प्रभावः न्यूनः अस्ति तेषु अन्येषु जीवेषु प्रकृतेः प्रभावः अधिकः भवति क्रमेण सृष्टिचक्रं क्रमेण गच्छति एकदा एव तत्र प्रप्रकृतेः प्रभावः न्यूनः भवति इति न क्रमेण षड्वादनात् द्वादशवादनपर्यन्तं यदा यत्र गतिः अस्ति तत्र क्रमेण प्रकृतेः प्रभावः न्यूनः भवति किमर्थम् एवं भवति प्रकृतेः स्वभावः तु गुणीकरणमेव तस्य स्वभावः तर्हि कथं प्रकृतेः प्रभावः न्यूनः भवति इति चेत् तत्र इति तादृश सन्धिः अस्ति परमपुरुषस्य अपि च प्रकृतेः सृष्टेः आरम्भकाले एव तेषां सन्धिः अस्ति यद् एवं प्रकृतिः प्रतिसञ्च धारायां नित्यनिवृत्ता भवति इति तादृशसन्धिः वर्तते इति कृत्वा दशवादने यदा मनुष्याः आविर्भूताः तदानीं ते अपि बन्धने यद्यपि अन्येषाम् अपेक्षया ते मुक्ताः परन्तु परन्तु इदानीमपि ते, ते सम्पूर्णतया मुक्ताः इति नास्ति यतोहि इतोपि गतिः अस्ति दशवादनात् द्वादशवादनपर्यन्तम् इतोपि गतिः अस्ति यदा ते स्वतन्त्रतया कार्यं कुर्वन्ति पशुव्यवहारं कुर्वन्ति तदानीं तत्र प्रकृतिः तेषां दण्डनमपि ददाति येन त मनः मनसः अधो गतिः भवति भवति तत्र तर्हि पुनः सङ्घर्षेण त अग्रे गच्छन्ति तर्हि तत्र केवलम् एतादृशविकल्पः मनुष्येषु एव अस्ति अन्येषु नास्ति अतः मनुष्याः स्वकर्मणां कर्ता स्वकर्मणां मनुष्याः कर्तारः सन्ति ते एव भोक्तारः सन्ति मनुष्येषु स्वतन्त्रतया कार्यं कर्तुम् एतादृशविलक्षणसामर्थ्यं वर्तते अतः प्रतिदिनं यत्किमपि वयं कुर्मः वयं तु तत्र कृते द्वन्द्वः अस्ति एवं करणीयं वा नो नो चेत् वा पशुधर्मस्य पालनं करणीयं वा नो चेत् मनुष्यधर्मस्य पालनं करणीयं वा इति एवं द्वन्द्वः अस्माकम् अस्ति अतः यदा वयं स्वतन्त्रतया निर्णयं कृत्वा वयं कार्यं कुर्मः तस्य फलमपि अस्माभिः अनुभोक्तव्यं तस्य कर्मफलमपि अनुभोक्तव्यम् अन्यजीवाः तथा न सन्ति ते कर्तारः भोक्तारः न सन्ति प्रकृतेः नियमानुगुणं ते बन्धने भवन्ति इति कृत्वा तत्र अस्माकं सर्वेषां तत्र मनुष्याणामपि स्वतन्त्रतया कार्यं मनुष्याः कुर्वन्ति इति ते अपि बन्धने सन्ति तत्र विकल्पस्य यथा विकल्पस्य चयनं ते कुर्वन्ति तदनुगुणं तेषाम् अग्रगतिः भवति नो अधोगतिः भवति अधोगतिः भवति चेत् पुनर्जन्म भवति पुनर्जन्म भवति चेत् तेषां परमात्मना सह ऐक्यं न भवति योगः न भवति तर्हि प्रकृतिः सर्वेषां सर्वे जनाः सर्वे पशवः सर्वे पक्षिणः सर्व् सर्वे जीवाः प्रकृतेः दर्शने एव सन्ति तर्हि प्रकृतिः ये जनाः प्रकृतेः नियमानुगुणं गच्छन्ति तेषां सहायं प्रकृतिः करोति ये गच्छन्ति ते दण्डनं ते दण्डनं प्राप्नुवन्ति बन्धने भवन्ति कर्मफलानां भोगं कुर्वन्ति पुनः पुनर्जन्म अपि ते प्राप्नुवन्ति अतः प्रकृतेः एतत् सर्वं कार्यं वर्तते अस्तु सुचित्रा भगिनी सर्वं स्पष्टमस्ति वा भवत्याः समीचीनतया एव उक्तवती तत्र अन्ततो गत्वा किञ्चित् स्पष्टीकरणमासीत् इदानीं स्पष्टमस्ति वा तत्र एकम् एकः वाक्यः आसीत् सापेक्षिकविचारः इत्युक्ते is is, it is a relative, Shubham, ashubham is a relative सापेक्षक विचारः इस् इटिव् शुभम् अशुभम् इस् अ रिटिव् ऐडिया वाट् इस् गुड् यु मैट् यु मैट् थिंक् देट् सम्थिङ्ग् इस् गुड् बट् नो वेद इट् रियली गुड् र् नट् Yeah, it's a relative idea. Ah. Relative idea. Good and bad ah. is a relative idea. So, so what is good? तदेव हा किं शुभं किम् अशुभम् इति कथं निर्णेतव्यम् इति चेत् तद् वयं पश्यामः यदा अस्माकं व्यवहारः पशुव्यवहारः अस्ति तत्तु शुभं नास्ति अशुभमेव अस्ति यदा अस्माकं व्यवहारः मानवधर्मस्य पालने अस्ति तत्तु शुभमस्ति यदा वयं तत्र अन्येष अन्येषां हितं कुर्मः जगतः सेवां कुर्मः तत्सर्वं कुर्मः तत्तु शुभमस्ति परन्तु केवलं पशुव्यवहारे वयं भवामः चेत् शुभं नास्ति खलु अस्माकं मनसः अधोगतिः भवति अतः यदि वयम् सर्वं जानीमः तदानीं वयं निर्णेतुं शक्नुमः शुभं किम् अशुभं किम, कोऽपि पुरुषः एतत् सर्वं न जानाति तर्हि सः चिन्तयति यदा सः गृह ग्रह, गृहं करोति अथवा सः गृहस्य निर्माणं करोति अथवा धनस्य सम्पादनं करोति सः चिन्तयति एतत् सर्वं शुभमेव इति चिन्तयति परन्तु वयं जानीमः इदानीम् एतत् सर्वं यदा वयं पठामः तदानीं वयम् अवगच्छामः किं शुभं किम् अशुभम् इति वयं जानीमः खलु इति वास्तविकशुभं किं वास्तविक अशुभं किम् इति सापेक्षिकः विचारः अस्ति यदि वास्तवं किं वास्तविकं किम् अस्ति इति जानीमः तदानीं शुभं किम् इति अपि वयं ज्ञातुं शक्नुमः अत्र अग्रिमपरिच्छेदे यद्दत्तमस्ति अस्माकं बन्धनस्य विषये अग्रगते गतेः विषये तत्सर्वं वयं जानीमः चेत् शुभं किम् अशुभं किम् इत्यपि वयं निर्धारयितुं शक्नुमः बुद्धमिति मन्ये अस्तु अन्येकमासीत् प्रकृतेः दण्डनमपि भवति ये स्वतन्त्र इच्छया कार्यं कुर्वन्ति तत्र ये मानवधर्मस्य पालनं न करोति इति हा, हा, हा प्रकृतिः तत्र प्रकृतिपुरुषस्य सन्धिः का अस्ति इति चेत् तत्र दशवादने यदा मनुष्याणाम् आविर्भावः भवति तदानीं तेषाम् अग्रगतिः भवतु इत्येव सृष्टेः लक्ष्यं खलु तद् अनुगुणम् अस्माकं व्यवहारः अस्ति चेत् प्रकृतिः सहायं करोति परन्तु तदनुगुणम् अस्माकं व्यवहारः नास्ति तद्विरोध विरोधरूपेण अस्माकं व्यवहारः अस्ति चेत् तर्हि प्रकृतिः दण्डनं ददाति यतोहि यदा वयं पशुव्यवहारं कुर्मः तदानीम् अस्माकं मनसः अधोगतिः भवति यदा मनसः अधोगतिः भवति तदानीं मनुष्यशरीरं प्राप्तुं वयं समर्थाः न भवामः तर्हि तत्र तदर्थं किं करोति प्रकृतिः इति चेत् पुनः तत्र अस्माकं मनः यः यदस्ति तत् पशुशरीरे स्थापयति येन पुनः सङ्घर्षं कृत्वा अस्माकं मनसः वर्धनं भवतु येन पुनः वयं मनुष्यशरीरं प्राप्तुं शक्नुमः तर्हि मनसि यादृशसामर्थ्यम् अस्ति तदनुगुणम् शरीरं भवेत् इति कृत्वा तर्हि इदानीम् अस्माकं मनसः व्यवहारः यथा भवेत् तथा नास्ति चेत् तदानीं मनुष्यशरीरं प्राप्तुं वयं समर्थाः न स्मः इति कृत्वा दण्डनरूपेण पुनः पशुशरीरं वा पक्षिशरीरं वा वयं प्राप्नुमः तदेव दण्डनम् धर्मस्य ना सम्यक् रीत्या पालनं कुर्मः तत्र सगुणब्रह्मणः कृपा अपि वर्तते तेन अग्रगति भवति एवं वा आम् सत्यम् इत्युक्ते प्रकृतिः अपि इच्छति यद् वयं मानवधर्मस्य पालनं कुर्मः ते येन नित्यरूपेण निवृत्तिः भवेत् क्रमेण निवृत्तिः भवेत् दशवादनपर्यन्तं प्रकृतेः निवृत्तिः अधिक अधिकनिवृत्तिः जाता इतोपि दशवादनात् द्वादशवादनपर्यन्तं यदा वयं गच्छामः तदानीं प्रकृतेः निवृत्तिः प्रकृतेः प्रभावस्य निवृत्तिः सम्पूर्णतया भवति तदेव प्रकृतिः अपि तदेव पुरुषः अपि तदेव सृष्टेः लक्ष्यं तदनुगुणं वयं गच्छामः चेत् तर्हि प्रकृतेः प्रभावस्य निवृत्तिः क्रमेण भवति येन अन्ततो गत्वा अस्माकम् ऐक्यं भवति निर्गुणपुरुषेण सह परन्तु तादृशव्यवहारं वयं न कुर्मः येन प्रकृतेः प्रभावस्य निवृत्तिः जायते परन्तु तद्विरोधे वयं व्यवहारं कुर्मः तद्विरुद्धव्यवहारं कुर्मः तदानीं तत्र अग्रे अग्रगति अग्रगतिः न भवति तर्हि अधोगतिः अवश्यं भवेत् यतोहि इदानीं प्रकृतेः प्रभावः अधिकः जातः अस्तु धन्यवादः अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः किं सरलग्ने पठति वा दृष्टौ यत्र चैतन्यस्य प्रतिबिम्ब स्पष्टतरं भवति तत्र प्रकृतिभावः न्यूनः अस्ति इति अवलोकितम् यदि जीवात्मा चै प्रकृतिप्रभावः प्रकृतिप्रभावः प्रकृतिप्रभावः न्यूनः अस्ति इति अवलोकितम् यदि जीवात्मा चैतन्यस्य प्रतिबिम्बम् विस्तारयितुम् विकासयितुम् च शक्नोति तर्हि सूक्ष्मताम् प्रति स्वस्य वेगम् वर्धयति यतः जीवात्मनि प्रकृतेः प्रभावः न्यूनीभवति तदा जीवात्मा शीघ्रम् पूर्णसूक्ष्मताम् प्राप्तुम् शक्यते स्म अतः कर्माणि तानि सन्ति यानि चैतन्यप्रतिबिम्बं विस्तारयन्ति प्रकृतिनियमस्य विरुध् विर... विरुद्धगमनं विना प्रकृतेः नियमानाम् अनुसरणं तथा च तस्याः आज्ञानुसारं कार्यकरणम् कर्माणाम् कर्मफलानां परिणामस्वरूपम् दुःखनिवारयति यदि चेतनायाः प्रतिबिम्बस्य घन वर्धनेन वर्धनेन प्रकृतेः धारणम् भवति अनेन अतीव कश्चन परमपदं गन्तुं शक्नोति यानि कर्माणि कञ्चित् प्रकृतिनियमानाम् अनुसरणम् कारयन्ति तथा च चैतन्यप्रतिबिम्बस्य घनत्वं वर्धयन्ति तानि उत्तमकर्माणि आदर्शकर्माणि इति उच्यन्ते एतानि कर्माणि विद्यामाया इत्यपि उच्यन्ते विद्यामाया वैराग्यविवेकयोः सह सम्बद्धा सम्बद्धा अस्ति इदानीं यत् पूर्वं वयं दृष्टवन्तः इदानीं प्रतिसञ्चरधारा दशवादनतः द्वादशवादनतम् कथं भवति तस्य विवरणम् अस्ति प्रकृतिप्रभावः वयं दृष्टवन्तः यत् परुष पशूनाम् अपेक्षा मानवस्य न्यूनमस्ति तत्र चैतन्यस्य प्रतिबिम्ब स्पष्टम् अस्ति तो इति प्रकृतिप्रभाव यथा इदानीं न्यूनम अभवत् तो इतोपि न्यूनं कर्तुं शक्नुमः यदि वयम् अन्तेष्णा इति भावयामः मनसि तस्य प्रति अपि गन्तुं प्रयत्नं कुर्मः तो इति प्रकृते प्रभावः न्यूनीकर्तुं शक्नुमः यदि प्रकृतेप्रभावः न्यूनी न भवति तदानीम् अस्माकं पुनः अधोगति भवति यथा वयम् Uh, पूर्वं दृष्टवन्तः यथा भवती उक्तवती धोगति भवति uh, पुनः मन् uh, पशु uh, शरीरं योनि uh, प्राप्नु प्राप्नुमः पुनः सङ्घर्षः भवति तु इदानीम् अत्र दत्तम् अस्ति uh, कथं प्रकृतिप्रभावः पूर्णतया निवारितुं शक्नुमः इत्यस्य uh, कृते विद् विद्यामाया अविश्या आवश्यकी अस्ति विद्यामाया इति इत्युक्ते येन वयं प्र प्रकृते प्रभाव अपसार अपसारितुं शक्नुमः अपि इति अस्ति वैराग्यविवेकयः विवेकयोः प्रयोग करणीयम् इति अस्ति साध सम्यक् अस्ति भगिनि धन्यवादः तर्हि अत्र अपि अन्तरं दत्तमस्ति यत् वयम् इदानीं कर्माणा कर्मफलानां पूर्वसंस्कारः अस्ति यदि अस्माकं प्रारब्धकर्म अस्ति तेषां यदि दुःखं भवति तदपि वयं निवारितुं शक्नुमः यदि वयं प्रयत्नं कुर्मः प्रकृत्याः प्रभाव न्यूनं कर्तुं शक्नुमः तदानीम् एव भवति आमाम् आं आम, समीचीनं भगिनी इत्युक्ते वयं पश्यामः चेत् तत्र शरीरे अस्माकं मनसः बहु बहु प्राधान्यं वर्तते खलु मनः एव सर्वं तत्र मनसः या अवस्था तदनुगुणमेव सर्वं भवति अस्मिन् परिच्छेदे मनुष्यः कथं लोके कथं जीवेत इति विषये अत्र सम्यक्तया दत्तमस्ति दत्र, हा, हा हा हा तत्र सृष्टिचक्रे प्रकृतेः प्रभावः न्यूनः भवति यदा चैतन्यस्य प्रतिबिम्बः सम्पूर्णतया अस्ति तर्हि मनः सम्यक्तया वर्धितं मनसः वर्धनं यदा भवति तदानीं प्रकृतेः प्रभावः न्यूनः भवति इदानीं तत्र पाषाणखण्डः अस्ति पाषाणखण्डे अपि मनः वर्तते परन्तु मनः सुषुप्तावस्थायाम् अस्ति तर्हि तत्र तत्र मन तत्र पाषाणखण्डः सम्पूर्णतया बन्धने अस्ति तत्र मनः सम्पूर्णतया बन्धने अस्ति इति कृत्वा तत्र तस्य व्यक्तीकरणं नास्ति पाषाणखण्डे अपि मनः वर्तते एवं वयं पश्यामः चेत् पञ्चभूतेषु अपि मनः वर्तते सर्वत्र मनः वर्तते परन्तु तस्य मनसः व्यक्तीकरणं नास्ति अतः पाषाणखण्डः तु चिन्तयितुं न शक्नोति पाषाणखण्डे अपि मनः अस्ति पाषाणखण्डः मनसा एव निर्मितं इट् इस् पाषाणखण्डः इस् मेड् आफ़् द कास्मिक् मैण्ड् तत्र सामग्री परमपुरुषस्य भूमा मनः एव सामग्री अस्ति तर्हि मनसा एव पाषाणखण्डः निर्मितं परन्तु मनः तत्र सुषुप्त अवस्थायां भवति तर्हि तत्र तत्र भूमामनः कथं निर्मितम् इति वयं जानीमः क्रमेण सत्त्वगुण रजोगुण तमोगुणस्य प्रब प्रभावेन क्रमेण महत्त महत्तत्वम् अहं तत्त्वं चित्तम् इतिषां त्रयाणां निर्माणं भवति तर्हि तदनन्तरं यदा तमोगुणस्य प्रभावः चित्ते भवति तदानीं तत्र स्थूलीकरणम् इतोपि स्थूलीकरणं जायते तत्र पञ्चभूतानाम् आविर्भावः भवति क्रमेण आकाशात् वायुः वायोः वायो अग्निः अग्नेः जलं जलात् पृथ्वी इति पृथ्वी अथवा क्षितितत्वम् अन्ततो गत्वा आयाति तर्हि तत्र यद् क्षितितत्त्वमस्ति तदपि भूममनसा एव निर्मितमस्ति तत्र क्षितितत्त्वं तु सम्पूर्णतया प्रकृतेः बन्धने अस्ति दट् इस् एक्चुलि द मोस्ट् क्वालिफैड् स्टेट् षड्वादने क्षितितत्त्वं क्षितितत्त्वमेव सम्पूर्णतया बन्धनम् तस्मात् अधिकं बन्धनं कुत्रापि नास्ति तर्हि ततः अग्रे षड्वादनात् आरब् आरभ्य क्रमेण तत्र किं भवति इति चेत् प्रकृतेः प्रतिसञ्चर्धारा वर्तते प्रकृतेः प्रभावः न्यूनः भवति यत्र प्रकृतेः प्रभावः अधिकः भवति तत्र चैतन्यस्य प्रतिबिम्बः सम्यक्तया न भवति यथा पाषाणखण्डे प्रकृतेः प्रभावः अधिकः अस्ति इति कृत्वा चैतन्यस्य प्रतिबिम्बः नास्ति तत्र न न दृश्यते गीद यत् यदा यदा प्रकृतेः प्रभावः न्यूनः भवति तदानीं चैतन्यस्य प्रतिबिम्बः स्पष्टतया भवति मनः अपि वर्धितं भवति तर्हि यदा चैतन्यस्य प्रतिबिम्बः न्यूनः भवति तदानीं मनः अपि मनः सुषुप्त अवस्थायां भवति यथा पाषाणखण्डे तदनन्तरं क्रमेण मनसः मुक्तिः मनसः मुक्तिः भवति मनसः वर्धनं भवति तर्हि तत्र प्रथमतया एककोषः जीवः आयाति तद तदनन्तरं तत्र केवलं चित्तमेव भवति तदनन्तरं क्रमेण यदा जीवाः विकसिताः भवन्ति तदानीं तत्र अहं तत्त्वम् अहं तत्त्वमपि आयाति तदनन्तरं म महत्तत्त्वमपि आयाति मनुष्येषु महत्तत्त्वं सम्पूर्णतया वर्धितं तर्हि अन्येषु वानरेषु महत्तत्वं वर्तते परन्तु सम्पूर्णतया वर्धितम् इति नास्ति केवलमनुष्येषु मनसः त्रयः अंशाः अपि सम्पूर्णतया वर्धितम् अस्ति अवस्थायां प्रकृतेः प्रभावः न्यूनः जातः तर्हि इदानीं तत्र इदानीं जीवात्मा जीवात्मा यदा चैतन्यस्य प्रतिबिम्बं विस्तारयितुं प्रयत् प्रयतते तदानीं तस्य जीवात्मनः गतिः सूक्ष्मं प्रति गतिः शीघ्रं गतिः शीघ्रा भवति शीघ्रा भवति यदा तत्र चैतन्यस्य प्रतिबिम्बं विस्तारयितुं सः प्रयतते तदानीं तत्र गतिः शीघ्रा भवति सः न प्रयतते चेत् तदानीं गतिः न भवति सूक्ष्मप्रति गतिः न भवति तर्हि जीवात्मा जीवात्मना प्रयत्नः करणीयः तत्र विस्तारस्य विस्तारस्य चैतन्यस्य प्रतिबिम्बस्य विस्तारस्य प्रयत्नः करणीयः षड्वादनात् दशवादनपर्यन्तं तत्र काचित् गतिः वर्तते परन्तु दशवादनात् द्वादशवादनपर्यन्तं तत्र गतिः शीघ्रा भवितुम् अर्हति यदा वयं प्रयत्नं कुर्मः इत्युक्ते अस्माकं स्वतन्त्र इच्छा अस्ति प्रयत्नं कुर्मः चेत् अस्माकं गतिः सूक्ष्मं प्रति शीघ्रा भवितुम् अर् अर्हति यतोहि अस्माकं तु स्वतन्त्र इच्छा वर्तते अस्माकं विकल्पः वर्तते मनुष्याणां पुरतः विकल्पः अस्ति अतः मनुष्येषु जीवात्मा तत्र चैतन्यस्य प्रतिबिम्बं विस्तारयितुं शक्नोति येन तस्य गतिः सूक्ष्मं प्रति शीघ्रं भवति एतदेव योगनिष्ठजीवनम् अस्ति तर्हि अस्य विषयेतोपि अग्रे वयं चर्चयामः तर्हि मनुष्येन तादृशजीवनं व्यवहर्तव्यं येन मनः क्रमेण प्रकृतेः बन्धनात् मुक्तिं प्राप्नुयात् क्रमेण तस्य गतिः तत्र पुरुषोत्तमः यः अस्ति केन्द्रे तं तं प्रति अस्माकं गतिः शीघ्रा भवेत् तर्हि येन सूक्ष्मतां प्रति गतिः शीघ्रा भवेत् तर्हि तदर्थं किं करणीयम् चेत् उत्तमकर्माणि अस्माभिः करणीयानि उत्तमकर्माणि यदा वयं कुर्मः तदानीं चैतन्यस्य प्रतिबिम्बः स्पष्टतया भवति तदानीं वयं प्रकृतेः नियमानुगुणमपि वयं गच्छामः प्रकृतेः नियमः कः इति चेत् दशवादनात् द्वादशवादनपर्यन्तम् अस्माकं गतिः भवेत् इति तस्याः अपि नियमः अस्ति तदर्थं वयम् उत्तमकर्माणि अपि कुर्मः येन अस्माकं चैतन्यस्य अस्मासु चैतन्यस्य प्रतिबिम्बः स्पष्टतया इतोपि स्पष्टतया तत्र विस्तारः भवति तर्हि तदानीम् अग्रगतिः भवति एतादृशकर्माणि एव उत्तकर् उत्तमकर्माणि तत्र उत्तमकर्माणि तत्र वैराग्यं वैराग्यं विवेकः इति अथवा विद्यामाया इति वयं वदामः एतादृश उत्तमकर्माणि कानि इति चेत् उत्तमकर्माणि विद्यामाया इति वयं वदामः उत्तमकर्माणि तत्र विवेकः वैराग्यम् इत्यनेन इत्या इत्याभ्यां इत्या सः सम्बन्धः वर्तते इत्युक्ते अन्येषु जीवेषु चैतन्यस्य प्रतिबिम्बस्य विस्तारः विस्तारं कर्तुं सामर्थ्यं नास्ति यतोहि ते तु सहजातवृत्त्यानुगुणं ते कार्यं कुर्वन्ति केवलम तत्र सङ्घर्षः एव अस्ति अन्येषु जीवेषु अतः तेषां क्रमेण मनसः विकासः भवति क्रमेण अग्रे वर्धनं भवति दशवादनपर्यन्तं परन्तु मनुष्येषु तु एतादृशसामर्थ्यं प्रथमतया मनुष्येषु अस्ति तत्र चैतन्यस्य प्रतिबिम्बस्य विस्तार विस्तारं कर्तुं तादृशसामर्थ्यमस्ति मनसः वर्धनार्थं मनसः विस्तारार्थं तेषु ते सामर्थ्यं वर्तते अपि च यदा प्रकृते पा, ते प्रकृतेः नियमानुगुणं पा नियमस्य पालनं कुर्वन्ति इत्युक्ते नियमस्य पालनम् इत्युक्ते किम् इत्युक्ते योगनस्य जीवनं प्रकृतिः किं प्रकृतिः किम् इच्छति इति चेत् वयं सात्विकाहारमेव स्वीकुर्मः इति प्रकृतिः इच्छति यदि तादृशं वयं कुर्मः वयं तु तत्र मांसाहारं कर्तुं वयं तु न यदि वयं सात्विकाहारं कुर्मः तर्हि प्र प्रकृतेः नियमानुगुणं वयं गच्छामः अतः अस्माकम् अग्रगतिः अपि भवति यदि प्रकृतेः नियमानुगुणं न गच्छामः इत्युक्ते वयं तामसिकाहारं कुर्मः तदानीं प्रकृतेः नियमानुगुणं न गच्छामः इति कृत्वा अस्माकं तत्र अधोगतिः भवति यतोहि नियमस्य भङ्गः जातः इति कृत्वा तस्य प्रभावः अस्मासु भवति यदि सम्यक्तया खादनं कुर्मः उचिताहारं स्वीकुर्मः तदानीम् अग्रे गन्तुं शक्नुमः इति एकम् उदाहरणम् अत्र अस्ति एवं रीत्या वयं कुर्मः चेत् इत्युक्ते इत्युक्ते साधना अपि करणीया साधना यदा क्रियते तदानीं मनसः वर्धनं भवति चैतन्यस्य प्रतिबिम्बस्य विस्तारः भवति साधना साधनायाः प्रभावेन अनन्तरं द्वितीयं प्रकृतेः नियमा, नियमा नियमस्य पालनं प्रकृतेः नियमस्य पालनं येन अस्माकं मनः इतोपि सत्त्वं सत्त्वगुणः आयाति तर्हि मनः अग्रे गच्छति यदा मनसि तमोगुणाः अथवा रजोगुणाः भवन्ति चेत् अग्रगतिः न भवितुमर्हति यत् यदा यदा शुद्ध शुद्धसत्त्वम् आयाति मनसि तदानीम् अग्रगतिः भवति तदानीं, तदानीं प्रकृतेः नियमानुगुणं वयं व्यवहारः अस्माकं व्यवहारः भवति तर्हि ये तु आध्यात्मिकजीवने न सन्ति ये तु सात्विकाहारम् अपि न स्वीकुर्वन्ति तर्हि ते तु चैतन्यस्य प्रतिबिम्बस्य विस्तारार्थं प्रयत्नमपि न कुर्वन्ति अपि च प्रकृतेः नियमानुगुणं कार्यमपि न कुर्वन्ति इत्युक्ते रात्रौ कश्चन कश्चन मनुष्यः निद्रा निद्राति खलु तर्हि तत्र रात्रौ सः निद् न निद्राति परन्तु सः केवलम् अन्यत् किमपि करोति निद्रां न करोति परन्तु अन्यत्र गत्वा तत्र कुत् किं चलनचित्रम् अथवा किमपि पश्यति इति चेत् तत्तु प्रकृते नियमानुगुणं विरोधः अस्ति नियमस्य भङ्गः अस्ति तर्हि तत्तु पशुव्यवहारः अस्ति एवं मनुष्यव्यवहारः यदा भवति तदानीं प्रकृतेः नियमस्य पालनं भवति अतः अत्र मनुष्यस्य हस्ते चयनम् अहम् एतत् करोमि वा तत् करोमि वा तत्र द्वन्द्वः अस्ति मनुष्यस्य हस्ते द्वन्द्वः अस्ति अतः तत्र मनुष्यः कथं जीवेयुः इति चेत् उत्तमकर्माणि कुर्मः चेत् अग्रगतिः भवति तत्र विवेकः वैराग्यम् इति अपे अपेक्षितं वर्तते अत्र कोऽपि संशयः अस्ति वा भगिनी तत्र एकः प्रश्नः अस्ति यदा कोऽपि मनुष्यः प्रयासं करोति मानवजीव मानवधर्मस्य पालनं कर्तुं परन्तु चिन्तयतु गृहे अन्यजनाः सन्ति ते तादृशं न कुर्वन्ति तत्र क्लेशः वर्तते यतोहि यः मानवजीवनस्य पालनं करोति तस्य अधोगतिः भवति भवितुम् अर्हति अन्यथा तु अन्यजनानाम् उद्धारयितुम् अग्रे नयितुं तस्य प्रयासः यत् क्रियते तत्रापि बाधा भवति ये जनाः न पालयन्ति तेषां प्रति किमपि कर्तव्यं भवति यः यो गनिष्ठजीवनस्य पालनं करोति सः यदा पश्यति गृहे अन्यजनाः तादृशं तादृश नियमस्य पालनं न कुर्वन्ति तत्र तस्य किमपि कर्तव्यः वर्तते वा अन्यथा न किमपि कर्तव्यं सा तु अग्रे गन्तव्यं भवति चेत् जीवनं भवति एतादृशमेकचिन्तनमस्ति न जानामि सम्यक् भगिनी अयं प्रश्नः बहुवारं आयाति सर्वत्र योगनिष्यजीवनवर्गेषु एतादृशप्रश्नः सर्वदा आयाति अहं तु आध्यात्मिकजीवने इच्छुकः अस्मि परन्तु आ, मम गृहे ये जनाः सन्ति तेषां इच्छाना वर्तते इति इति विषयः अस्ति तर्हि यदा वयं जीवने प्रवेशं कुर्मः तदानीम प्रथमतया अस्माकं विषये वयं चिन्तनं कुर्मः यत् यत् यत्किमपि करणीयं तत्सर्वं प्रथमतया अस्माकं जीवने वयम् आनयामः सात्विक आहारः भवतु आसनं वा भवतु साधना भवतु यत्किमपि सर्वम् अस्माकं जीवने आनयामः यदा वयं योगनिष्ठजीवने वयं प्रतिष्ठिताः स्मः तदानीं तत्र अस्माकं गृहे ये जनाः सन्ति तेषां विषये अपि चिन्तनं वयं कुर्मः इत्युक्ते तेषां त्यागः कुर्मः त्यागं कुर्मः इति तेषां विषये चिन्तनं न कुर्मः इति तेषां विषये चिन्तनं कुर्मः प्रयासं कुर्मः तेषां अपि शिक्षणं कुर्मः तेषामपि वयं तेषां कृते अपि तेषां पार्श्वे उपविश्य वयं एतस्य सर्वस्य विषये वयं वदामः अपि च पशुव्यवहारेण हानिः भवति तस्य विषये अपि वयं वदामः एतत् सर्वं यदा वदामः वदामः तदानीं तेषाम् अन्तःचक्षुः अपि उद्घाटितं चेत् ते अपि चे, अग्रे अग्रे आगच्छन्ति परन्तु इदानीमपि तेषां संस्काराः तथा सन्ति अपि च इदानीमपि तत् पशुव्यवहारे एव इच्छा वर्तते अस्य यौवनस्य जीवनमिति विषये तेषाम् उत्साहः नास्ति चेत् वयं द्विवारं त्रिवार त्रिवारं वयं क्षणैः शनैः प्रयासं कुर्मः परन्तु अन्ततो गत्वा तादृशकालमायाति यदा वयं निर्णयं कुर्मः एतेषां विषये वयं किमपि न कर्तुं शक्नुमः इति चेत् तदानीम् अस्माकं समयस्य व्ययः व्ययः वयं न कुर्मः व्ययं न कुर्मः तदानीं यावत् प्रयासम् अपेक्षितं तावत् वयं कुर्मः तदन् तत्पश्चात् ते अत्र तस्मिन् विषये तेषाम् इच्छा नास्ति चेत् वयं किं कर्तुं शक्नुमः वयं किमपि न कर्तुं शक्नुमः अतः वयम् अन्यत्र गच्छामः अन्येषां जनानां बोध बोधनार्थं वयं प्रयासं कुर्मः लोके ये जनाः सन्ति प्रथमतया गृहे ये जनाः सन्ति यदि तेषामपि अत्र अत्र इच्छा अस्ति चेत् बहु सम्यक् तर्हि सम्पूर्णपरिवाररूपेण वयं योगनिश्च जीवने व्यवहारं कर्तुं शक्नुमः परन्तु अन्येषां जनानाम् इच्छा नास्ति अस्मिन् विषये विषये तदानीं तत्र तु तत्र वयं प्रयासं न कुर्मः अपि च वयं सावधानतया अग्रे गच्छामः यतोहि अस्माकम् अधोगतिः अपि न भवेत् ते तैः सह व्यवहारं कुर्मः तदानीम् अस्माकम् अधोगतिः न भवेत् इति तस्य विषये अपि वयं सावधानतया अग्रे गच्छामः वदति यत् ये यदि तेषां तेषां सह अस्माकं व्यवहारः अस्ति तेन अस्माकम् अधोगतिः भवति चेत् तादृशजनानां त्यागः करणीयः इति महोदय अवश्यं वदति इत्युक्ते आदौ एव इति न अन्ततो गत्वा यदा अस्माकम् अग्रगतिः जायमाना अस्ति परन्तु कदाचित् वयं चिन्तयामः एतैः जनैः सह मम सहवासेन मम अधोगतिः भवति इति तादृशपरिस्थितिः आयाति चेत् तदानीं तादृशजनानां त्यागः अवश्यम् अस्माभिः करणीयः इति अपि अवश्य, अवश्यम् अवश्यम् आवश्यकमस्ति नो चेत् अस्माकमपि अधोगतिः भवितुम् अर्हति यतोहि ते तु ते तु परमात्मनः विषये न चिन्तयन्ति केवलं पशुव्यवहारे व्यस्ताः सन्ति तर्हि वयं किं कर्तुं शक्नुमः तेषामिदानीं समयः नास्ति परमात्मनः कृपा इदानीम् एतावता न प्राप्तं तेषां संस्काराः तत्र सन्ति वयं किं कर्तुं शक्नुमः वयं प्रयासं कुर्मः प्रयासं कृत्वा तेन लाभः न जातः चेत् तदानीम् अन्यत्र वयं गच्छामः अन्येषां जनानां विषये वयं चिन्तनं कुर्मः इति एव मम चिन्तनम् अस्ति भगिनि महोदय अस्य किमपि वदति चेत् अहं वक्ष्यामि रितं वा न वा इति न जाना उत्तरं तु प्राप्तवती परन्तु तस्य किमस्ति यतोहि गृहे वा बान्धवाः वा तेषाम् एकः अनुरागः वर्तते खलु कथं तेषां तेषां चिन्तनं विना अग्रे गच्छामः चेत् तत्तु किमपि स्वार्थः स्वार्थः भावः तादृशमेकचिन्तनमासीत् परन्तु यद्भवती उक्तवती यदा अस्माभिः तु मानवजीवधर्मस्य पालनं करणीयम् एव अग्रे तेषां गतिः भवति वा न वा इति तु सज्नब्रह्मणि एव तत् चिन्तनं स्थापयित्वा अग्रे गन्तव्यं वयम् वयं प्रयासं कुर्मः भगिनि प्रयासं तु कुर्मः तादृशबन्धने तु अस्माकमपि बन्धनं भवति पुनः अधोगतिः एव भवति इत्युक्ते तत्र यदा यदा योगनिष्ठजीवने प्रवे प्रवेशं प्राप्नुमः तदानीं तत्र ये पुरातनमित्राणि सन्ति तेषां त्यागः यथा वयं कुर्मः तथा गृहे ये जनाः सन्ति तेषां त्यागम् आदौ वयं कर्तुं न शक्नुमः तर्हि क्रमेण क्रमेण यदा अस्माकमपि मनः मनसः वर्धनं भवति तदानीम् अस्माकं मनः अपि तादृश अवस्थायां भवति कदाचित् तदानीम् एतेषां जनानां सह मम सहवासः अस्ति चेत् मम अधोगतिः भवति इति तादृशचिन्तनं भवति चेत् तदानीं तत्र तादृशजनानामपि त्यागः आवश्यकः अस्ति धन्यवादः अतः अथवा कदाचित् किं भवति इति चेत् यदा mm -hmm. आ, अस्माकं वर्धनं तावत् अधिकं भवति तदानीं ते अपि अस्मान् पश्यन्ति ते अपि पश्यन्ति अस्मान् दृष्ट्वा तेषामपि अन्तश्चक्षुः उद्घाटितमपि कदाचित् भवितुमर्हति अस्माकं वर्धनं तावत् अभवत् यत् तत् ते अपि ओ अस्मिन् अस्मिन् मार्गे किमपि अस्ति अहमपि प्रयासं करोमि इति तादृशभावना अपि भवितुम् अर्हति they can also get influenced by you so much by seeing the positive improvements in you इम्प्रूव्मेण्ट्स् इन् यु लैक् फिजिकलि अण्ड् मेण्टलि एण्ड् एव्रिथिङ्ग् हौ यु वेर् बिफोर्ड् हौ यु आर् नौ देन् दे आल्सो वुड् बी इम्प्रेस्ड् अण्ड् इन्फ्लुएन्स्ड् अण्ड् इन्स्पयर्ड् दट् ओ संथिङ्ग् इस् दर् इन् दिस् लेट् मी आल्सो ट्रै रैट् दट् इस् आल्सो क्वट् पासिबल् इति अपि अस्ति अस्तु भगिनी अत्र स्थगनं कुर्मः समीचीनं सम्यक्तया चर्चा जाता धन्यवादः इतः अग्रे अग्रे गन्तुं शक्नुमः धन्यवादः धन्यवादः धन्यवादः भगिनि धन्यवादः